गणेशपुराणम् उपासनाखण्डम् अध्यायं सेवेण्टि एय्ट् क उवाच तदो मुनिशिष्यगणमुवाच त्वरया व्रज आकारयितुं नृपतिं नदीतीरनिवासिनं ते शिष्यास्तं नृपं गत्वा गृह्य तत्प्रणीतं पुरा दत्वा श्रीर्वचनं तस्मै मुनेराज्ञां तथा ब्रुवन् चलराजन्नवहितो भोजनाय ससैनिकः पात्राणि परिविष्टानि सङ्ख्यातीतानि षड्रसैः क तद उद्धाय राजासौ समाहूय ससैनिकान् सुस्नाद सर्वसैन्येन कार्तवीर्यो नृपो ययौ मुनिवेश्मततो पश्यन्न दुष्टं न च वै श्रुतं यदादृश्यं त्रिलोकेषु गृहतो रणमापसा सनिषिद्धो वेत्रधरैर्मुनिसङ्केतकामुकैः ते निषिद्धाशिष्यगणैस्तदोगाद्धो जनालयं स्थित्वा मध्ये पश्यति स्म राजासौ सम्पदं मुनेः अमन्य तदा स्वान्ते नेदृशी शीर्हरौ हरे पालके पालके स्रष्टर्यपि ब्रह्मणि नेदृशी तदो मुनिः पुरो भूत्वा प्रतिपादे न्यवेशयद राजानुमतिमाज्ञाय पङ्क्तौ पङ्क्तौ ससैनिकान् द्रापयामास पात्राणि ये बहिर्भोजिनश्च तान् उपविष्टेषु सर्वेषु राजानमुपवेशयत बुभुजुश्चेतदा वाद्ये वादिदे सर्व एव हि अदृष्टपूर्वाण्यन्नानि स्वादुमूलफलानि च परस्परं च पप्रच्छु किमिदं किमिदं त्विधि आश्चर्यं मेनिरे सर्वे या मेनेद्धं कथं कृतं यथेष्टं भुञ्जते सर्वे तृप्ताश्चान्नानि तत्यजुः ते प्रक्षालनपात्राणि प्रतिपात्रेण्यवेदयन् मुनिशिष्याञ्जलं चापि शलाका अपि गजाश्व गजाश्ववृषवृन्देभ्यः शिष्याश्येषान्नमर्पयन् ततोऽन्यस्मिन् गृहे सर्वे विस्तीर्णे कृतसंस्तरे इक्षुद्राक्षाम्रपनसदाडिमानिबभक्षिरे एलालवङ्गकर्पूरचूर्णकादिरपूगकान् जगृहुर्मुनिदत्तांस्ते नागवल्लीदलैर्युदान् तदो ददावलङ्कारान् वासां सिज मुदा मुनिः तेभ्यो यथार्ह सर्वेभ्यो राज्ञे नैर्घ्यैतराणि च मुनिरुवाच कि मैं भोजनम देय मु वन्यवृत्तिनासमे विषु यशोक्रिलोके मे थया मद्वाक्यकारिणा जमदग्नेगृहेराजा सैन्य नुजिता साधु। प्रयुज्यते महान् शुद्रस्य वाक्यं चेत् कुरुते सोऽपि साधुतां प्राप्नोति सर्वलोकेषु कीर्तिं स्वीदां समुत्कटां मद्वाक्यकरणे तेऽपि दूरेरिष्ठं गदमहत ब्रह्मोवाच इति वाणीं समाकर्ण्य जमदग्निसमीरिताम् पप्रस तत्र विस्मयाविष्टमानसः राजोवाच नादर्शिप्रथमं किञ्चिदिदं किं मायया कृतं तपप्रभावाद्वाकारिसत्यं मे वद सुव्रत मुनिरुवाच अनृतं नोक्तपूर्वं मे परिहासेपि वा नृप अतः ब्रवीमित्वा पाम धेन्वाखिलं कृतं ब्रह्मोवाच कुमतिस्तस्य भवति यस्य दैवमदक्षिणम् अनिष्टं बलवद्भावि दुष्टग्रहकृतं मुने भुक्त्वा तृप्तोऽपि राजासौ सम्यक् सबलवाहनः आदाने कामधेनोः स मदिं चक्रे ब्रवीदिदं राजोवाच मुनीनां शान्तचित्तानां कन्दमूलफलाशिनां मनसा सृष्टिसंहार कर्तॄणामस्त पृथावताम् जितेन्द्रियाणां विज्ञानां नेक्षे धेन्वा प्रयोजनं वन्यमारुदभक्ष्याणां मोक्षसाधनकारिणां वेदाभ्यसनशीलानां सम्पदा किं प्रयोजनम् शास्त्रपाठनशीलाम्ना धर्मशास्त्रार्थवेदिनाम् योगाभ्यासरतानां च कामधेनोः प्रयोजनं कार्या स महदे स्या तु महद्वस्तु महद्गतम् महद्रत्नं च तस्माद्धेया कामधेनुं मम ब्रह्मन् मुदा त्वया मयि स्थिता तवैवास्ति चेतसि त्विधि धार्यतां पुरस्तव नो चेद्राज्ञां किमग्राह यं स्वराष्ट्रे परराष्ट्रं वा चुंगबल सह ब्रहोवाच वचनम तस् काीये दुर्मदेह प्रदज्ज्वाल रोषेण जमदग्निर्म मुनि सर्षा बहुलेन जाज उवाचारक्तनयनशिक्षयन्निव भूमिपम् मुनिरुवाच साधुशुद्धिमहान् राजा प्रार्थितां भोजनाय हि कौडिल्यं तव न ज्ञातं भगस्येव हृदि यथा वा कोकिलाकाकबालम् पुष्णादि मायया अन्देतत अन्े तत्क्या भक्ष्यर व्रजेद अहमेवाभव भ्रांदो यज मित्रा न न श्रुदां लोके श्री किश्री गणेशपुराणे उपासनाखंडे कार्तवीर्योपाख्यानं नाम अष्टसप्ततितमोऽध्यायः ओम्